नमस्कारः नमो नमः नमस्कारः नमो नमः स्वागतं सर्वेषाम् अस्तु आरम्भं कुर्मः केचन जनाः न सन्ति परन्तु ते आगमिष्यन्ति इति मन्ये अस्तु राधा भगिनी नमो नमः भवती आरम्भं करोति वा प्रार्थनया आम् नमो नमः भगिनी सरस्वती नमस्तुभ्यम् वरदेकामरूपिणि विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा शान्ताकारम् पुजगशयनं, पद्मनाभम् सुरेशं, विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिभिध्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् ओम् धन्यवादः पुनः धन्यवादम् आरम्भं कुर्मः अधुना अस्माकं विषयः अस्ति सप्तमी विभक्ति इति तत्र वयं दृष्टवन्तः अकारान्तपुल्लिङ्गकारान्त श्रीलिङ्गपुल्लिङ्ग तथैव ईकारान्तीलिङ्ग अधुना किञ्चित् अग्रेसरेमः प्रथमतः तु तथैव वयं कुर्मः प्रथमतः तु अत्र तालिका अस्ति पश्यामः स्क्रीन् शेर् करोमि यथा वयं कृतवन्तः पूर्वस्मिन् वर्गे पश्यन्तु एकवारं तत्र राम इति अकारान्तपुल्लिङ्गनि इति मुनिः इति प्रथमा इकारान्तपुल्लिङ्गरु इति उकारान्तपुल्लिङ्ग मातृ इति रुकारान्तस्त्रीलिङ्ग तथैव माला आकारान्तस्त्रीलिङ्ग मती इकारान्तीलिङ्ग नदी कारान्त तिलङ्ग् एतावत्पर्यन्तं वयं कृतवन्तः हा एकवारं तस्य पठनं कृत्वा अग्रिमे सरामः हा एकवारं पठामः अम्बिकापतिमहोदये भवान् एकवारं पठति वा अम्बिकापतिमहोदयः अस्ति वा अस्तु आगस्ट् महोदये भवान् एकवारं पठति वा भगिनी सप्तमे राम रामे रामयोः रामेषु सप्तमे मुनि मुनौ मुन्योः मुनिषु सप्तमे गुरु गुरौ गुर्वोः गुरुषु सप्तमे मातृ मातृ मातरी मात्रोः मातृषु सप्तमी माला मालायां मालयोः मालासु सप्तमी मति मतौ तवा मत्यां मत्योः मतिषु सप्तमी नदी नद्यां नद्योः नदीषु योक्यं धन्यवादः अधुना अग्रिमे अग्रिमे तत्र अद्यदिनस्य अद्यदिने वयं किं कुर्मः तदस्ति अस्माकं पुरतः सप्तमी तनु तनु अधुना तत्र भारतमहोदय तत्र तनु भारतमहोदय तत्र तनु इति अन्तिम अन्तिमस्वरः कः तनुशब्दे अत्र उकारान्त स्त्रीलिङ्गि तनु इति उकारान्ती अधुना कानि रूपाणि सन्ति पठति वा सप्तमीट् देट् सप्तमी तनु शब्दस्य कृते रूपाणि कानि ओके तनु एकवचन सप्तमी तनौ ओर् तन्वां द्वितीया भवति तनुवोः द्विवचन् तनुवच द्विवचन् तन्वोः बहुवचन तनुषु तनुषु अधुना भारतमहोदयस्य तत्र धेनु इति शब्दः धेनु इत्युक्ते किम् धेनु, धेन धेनु धेनु, काव. उकारान्त स्त्रीलिङ्गकारान्त स्त्रीलिङ्गणि भवितुम् अर्हति ओके एकवचन सप्तमी धेनो च और धेनवाम् उत्तमं देवोः द्विवचन देवोः बहुवचन धेनुषु उत्तमम् उत्तमम् अग्रिमे पठति वा चञ्चु चञ्चु एकवचन सप्तमी विभक्ति चञ्चु इति चञ्चु इति मा, अन्तिम अन्तिमस्वरः ओके चञ्चु उकारान्त दीर्घ उकारान् दीर्घ उकारान् त्रिलिङ्गि रूपाणि सप्त सप्तमे विभक्ति एकवचन चञ्चां द्विवचन चञ्चुवां चञ्चुवां चञ्चुवाम् ओके ओके चञ्चुवां चञ्चुवां द्विवचन् चञ्च्वो हो चञ्च्वोः बहुवचन् चञ्चुषु चञ्चुषु अधुना वधू इति रूपं वदामि चेत् वधू एतस्य रूपाणि कानि भवितुमर्हति वधू वधू वधु वधु उकारात् स्त्रीलिङ्गे सप्तमे विभक्ति एकवचन् वद्वाम वद्वाम। वद्वो वद् वध्वोः वधूषु उत्तमम् उत्तम अग्रिमे पठतु मातृ ऋकारान्त् ऋकारान्त् श्रीलिङ्गविभक्ति एकवचन् मातरी द्विवचन् मात्रोः बहुवचन् मातृषु उत्तमं यदा स्वश्रु सिस्टर्स् इति स्वश्रु इति वदामि चेत् रूपाणि कानि वदति वा स्वस्रु स्वृ लिखित्वा दर्शयामि एकविषये पश्यामः किल कथमस्ति ृस्त्रु ओके श्वश्रु अन्तिम ऋकारान्तश्रु श्वश्रु इत्युक्ते भगिनी ओके श्वश्रु ऋकारान्त् श्वश्रु सप्तमे विभक्ति एकवचन स्वसरि स्वस्रो श्वश्रोः स्वश्रूषु श्वश्रुषु सत्यं योग्यं सम्यक् स्वसरि स्वश्रूः स्वस्रुषु यथा मातरि मात्रोः मातृषु उत्तममस्ति भारतमहोदय धन्यवादः धन्यवादः धन्यवादः भगिनी अधुना विना भगिनी अग्रिमे पठति वा <coughs> सप्तमी फल सप्तमी तनु शब्दः अभवत् हा। तनु ता, चञ्चु मातृ अग्रिमे सप्तमी फल इति इत्युक्ते फल इति प्रातिपदि अकारान्तनपुंसकलिङ्गि शब्दः इति वदामः अस्तु अकारान् अकारान्तनपुंसकलिङ्गिः फलशब्द फले फलयोः फलेषु इति पुष्पमस्ति चेत् कथं भवति पुष्पम् पुष्पे पुष्पयोः पुष्पयोः उत्तम अग्रिमे दधि शब्दः अन्तिमवर्णकः इकारान्तनपुंसकलिङ्गि वा भगिनी नकारान्त न किं योग् सत्यम् अधुना पठतु सप्तम्यन्तरूपाणि कानि दध्नि दध् किं दधनोः दधिः योग्यं यदि तृष्टिकारान्तरं दधि इत्युक्ते द्विवचनं कथं हा नपुंसकलिङ्गे परन्तु द्विवचनं कथं भवति भगिनी द्वौ दध्नौ कथं भविष्यति तत्र किं भवति द्विवचने नपुंसकद्वौ इति कदा भवति पुल्लिङ्गी अस्ति चेत् द्वौ वृक्षौ हा द्वौ छात्रौ परन्तु अत्र नपुंसकलिङ्गे अतः द्वे द्वे फले द्वे पुष्पे अत्र दधि दधि दधिनि दधीनि प्रथमान्तपदं uh -huh. दधि दधिनि दधीनि uh -huh. द्वे दधिनि इति भवति प्रथम uh -huh. hmm? yeah. yeah. तत्र द्वौ इति भवति पुल्लिङ्गशब्दस्य कृते नपुंसकलिङ्गे अस्ति चेत् द्वे इति भवति दधि इति नपुंसकलिङ्गी इकारान्त अतः तत्र द्वे इति भवति अस्तु अस्तु अस्तु पश्यतु अत्र चिन्तनं करणीयं पात्रे पात्रे दधितं वर्तते तत्र पात्रद्वयम् अस्ति पात्रद्वयं स्तः अतः एकं पात्रं तत्र दधि द्वितीयं पात्रं तत्र दधि एतत् चिन्तनम् अत्र हा जले विषये अपि वयं वक्तुं शक्नुमः जलं जले जलानि तत्र न सम्भाषणे तादृशं रचन् तादृशी रचना वयं न कुर्मः परन्तु तत्र व्याकरणदृष्ट्या तत्र द्वे इति आगच्छति अस्तु भगिनि हा अस्तु अधुना भवती वारिशब्दस्य विषये वदति वायि वारी अपि इकारान्तनपुस्तकलिङ्गे तत् रूपाणि वायि इत्युक्ते वायि अच्छा ओके वायि वाहिनि वायिनि वायिनौ हा वारिणोः तु सम्यक् परन्तु अत्र वारिणि दधनि दधनि तत् दध्नि दधनि तथा अत्र शब्दस्य कृते एकमेव रूपं वारिणि वारिणोः वारिषु वारि वारिणि वारिणोः वारिणोः वारिषु अस्तु भगिनी अधुना भवती वदतु अक्षि इति अक्षि अक्षिणी अक्षिण्योः अक्षिषु अक्ष्णोः इति तत्र किञ्चित् आघातरूपेण अस्ति अनन्तरं च अस्ति अनन्तरं ओ तत् प्रकारयुक्त अक्षर खलु कश्च संयोगेन उत्तमम् अग्रिमे पठति वा हा भगिनि hmm. अम्बु अम्बुशब्दः अम्बुनि अम्बुनोः अम्बुषु अम्बुनि अम्बुनोः अम्बुषु अम्बु इत्युक्ते जलं जलं जलं अस्तु भगिनि जलम् अम्बुज अम्बुज इत्युक्ते किं जलं ददाति मेघः मेघः मेघवर्षवृष्टिः ददाति हा अधुना अधुना, अधुना, अधुना, अधुना उकारान्तनपुंसकलिङ्ग अम्बु अधुना दारु शब्द दारु इत्युक्ते काष्ठं काष्ठं लक्डि इति वदति वा दारुणि दारुण्योः दारुषु दारुणोः दारुषु दारुणोः दारुषु ना। ना। हा सम्यक् योग्यमस्ति भगिनि धन्यवादः धन्यवादः भगिनी धन्यवादः अम्बिकापतिमहोदय वक्तुं शक्नोति वा वक्तुं शक्तु शक्नोति वा भवान् किं किं हा पृच्छामि तत्र Uh, उकारान्तस्त्रीलिङ्गे वयं तनु इति दृष्टवन्तः तनु शब्दस्य कृते सप्तमप्यन्तपदानि तनौ वा तन्वां तन्वोः तनुषु इति भवति अधुना इतोपि एकं शब्दः एकः शब्द एकं शब्दं स्वीकुर्मः उकारान्तस्त्रीलिङ्ग एव बाहु तद् बाहुशब्दस्य रूपाणि वदति वा बाहु... <coughs> बाहु बाह्वोः बाह्वौ बाह्वोः बाहुषु अत्र बाहौ बाह्वां बाहौ बाह्वां बाह्वोः द्वितीयान्तपदं बाह्व एकवचन बाह्वोः द्विवचन बाहुषु बहुवचन अस्तु अधुना तत्र चमू इति शब्दं स्वीकृत्य वदति वा चमू इति ऊकारान्तस्त्रीलिङ्गमू रूपाणि कानि ऊकारान्तस्त्रीलिङ्गु किं पदं यथा चञ्चु किं भवति चञ्च्वां भवति अधुना चमू चमू इत्युक्ते सेना चमू इत्युक्ते सेना च चमौ चमौ। चमौ। भवति योग्यम् uh, अधुना तत्र uh, हा अंगम अङ्गमिति शब्द, तत्र अङ्गम् ते नपुंसकलिङ्गे अकारान्तम् अङ्ग इति यथा फलं तथा नपुसकलिङ्ग् अङ्गे अङ्गे एकवचनम् अङ्गयोः द्विवचनम् अङ्गेषु बहुवचनम् उत्तमम् उत्तम अधुना तत्र इकारान्तनपुस्तकलिङ्गि यथा दधि चलति इकारान्तनपुसकलिङ्गि अस्थि अस्ति इत्युक्ते बोन्स् अस्ति hmm. शब्दस्य कृते रूपाणि वदति वा अस्ति अत्नी अतनी अतनी अतनोः अतनिषु हा अस्नोः अस्थीषु अस्थीषु तत्र दधि दधिषु अस्थि अस्थिषु अस्नोः अस्थिषु इति अस्तु हा अधुना तत्र आ, हा वसु वसु इति शब्दः यथा सप्तमी अम्बु उकारान्तशब्द तथैव वसु वसु इत्युक्ते वेल्त् धनम् इति तत् वसु शब्दस्य रूपाणि कानि भवति वस्तु वसु वसु वसुषु वसु वसु वसुनि एकवचनं वसुनोः द्विवचनं वसुनुषु भवति वसुषु वसुषु यथा अम्बुषु तथा वसुषु तत् तथैव भवति अम्बु अम्बुषु वसु वसुषु अस्तु योग्यम् धन्यवादः महोदय धन्यवादः धन्यवादः अधुना आगस्ट् महोदये आगस्ट् महोदये भवान् वदति वा अत्र दैवतं दैवतं, दैवतं नपुंसकलिङ्गिशब्द दैवत् अकारान्तनपुसकलिङ्गि प्रातिपदिक् तस्य प्रथमा भवति दैवतम् अधुना सप्तमी रूपाणि कानि वदति वा शब्दस्य अत्र देव, लिखित्वा दर्शयामि अत्र शब्दः अस्ति दैवत दैवत अकारान्तनपुंसकलिङ्गे प्रातिपदिकं प्रथमा किं भवति दैवतं यथा फलं फलम् पुष्पम् अङ्गं तथा दैवतम् इति भवति योः दैवतयोः दैवते दैवतयोः अग्रिमे दैवेश अतर दई दै अस्लु दकार ई हाँ दकारात् कि दकार अस्त तस्माइ हाँ अतः दई इतिमती देवत न तथा किस् द अतः रूपाणि कीदृशानि दैवते दैवतयोः दैवतेषु पुनः एकवारं वदति वा कृपया अवस्तु महोदय दैवते दैवतयोः दैवतेषु दैवतेषु अस्तु हा अधुना तत्र हनु हनुट शब्द तस्वती हनु हनुते कि वो से जानी हनुम लिखि दर्शा हनु हकार अस्सी नकार उकार हनु हन। हनुक्त अस्तु शिक्षा अस्तु कोऽपि साहाय्यं करोति वा हनु इत्युक्ते किम् इस् इत्युक्ते वस्तुतः तत् इति अस्ति चिन् हनु टिपिकल् शार्ट् आफ़् Protruding sort of thing. That is Hanumat. अत्र पश्यन्तु वयं सर्वे जानीमः हनुमत् इति हनुमत् इति प्रातिपदिकं हनुमत् इत्युक्ते मतुप्रत्ययः यस्य हनु वैशिष्ट्यपूर्ण वैशिष्ट्यपूर्ण हनु इति तेन सह मतुप्रत्ययः Hanumat. Pratipadikam. परन्तु प्रथमा किं भवति हनुमान् इति प्रथमा प्रातिपदिकं हनुमत् अग्रिमे यथा यदा हलन्त हलन्तशब्दानां विषये पठामः तत वयं कुर्मः अधुना तु अस्माकम् अजन्त इत्युक्ते अच् अन्ते अस्ति एतादृशाः शब्दाः अतः हनु हनुत। हनु इति ंगे शब्द अनु अन, अनौ अथवा रूपी वदी वाला योग्य स अधुना तत्र इतोपि एकः शब्दः भवानेव वा करोतु वास्तु इति शब्दः वास्तु उकारान्त अस्ति उकारान्त नपुसकलिम् उकारान्त नपुसकलिम् अत्र कः शब्दः अम्बु तावदेव वास्तु उकारान्त नपुसकलिम् अधुना पठतु कथं भवति रूपाणि वदतु तत्र वास्तु इति शब्दवारं वास्तु वास्तु इत्युक्ते हा वास्तु इति शब्द वास्तु वास्तु इत्युक्ते किं वदतु Uh, object or space or, or Brahman, even Brahman? Vastu uh, is a place where we are living, Vastu. That is a place where we are living. Ah, okay. Yeah, okay. Vastu is a place where we are living. Vastu is a place where we are living. प्रौढाशैली तत्र महोदय वास्तु इति जनाः वदन्ति प्रगल्भतया प्रौढतया वास्तु इति शब्दः आगच्छति परन्तु अस्माकम् अभ्यासार्थं वयं स्वीकुर्मः वास्तु उकारान्त नपुसकलिङ्गि शब्द सप्तम्यन्तरूपाणि कानि वदति वा वास्तु अम्बु एव चलति खलु वास्तु वास्तु इत्युक्ते प्लेस् टु स्टे ओर् ड्वेलिङ्ग् प्लेस् वास्तु नपुंसकलिङ्गे उकारान्त अतः अम्बु अम्बु कथं चलति अम्बु अपि नपुंसकलिङ्गे उकारान्त अत्र अम्बु एतस्य अम्बु अम्बुनि अम्बुनोः अम्बुष एवं भवति अधुना वास्तु कथं रूपाणि भविष्यति भविष्यन्ति वदतु वस्तुनि योग्य वास्तुनि वास्तुनोः वास्तुषु योगं योगम् अत्र इतोपि एकं स्वीकुर्मः तत्र महोदय तत्र शस्त्रम् इति शस्त्र शस्त्रम् इति प्रथमाभिभक्ति तत्र रूपाणि कानि भवितुम् अर्हति शस्त्रं शस्त्रं शस्त्रं शस्त्र वेप कथमस्ति शस् अपार त्रकार रेफ अकार चस्त्र शस्त्रे शस्त्रे शस्त्रयोः शस्त्रेषु शस्त्रे शस्त्रयोः शस्त्रेषु स्त्रे स तस्त्रेषु शस्त्रे शस्त्रयोः शस्त्रेषु एवमस्ति तस्य अस्माकम् अद्यदिनस्य पठनबिन्दुः अद्यदिनस्य पठन पठनबिन्दुः उकारान्तश्रीलिङ्गे ऊकारान्तदीर्घ ऊकारान्तश्रीलिङ्गि ऋकारान्तश्रीलिङ्गि तद्वयं कृतवन्तः परन्तु पुनः एकवारं ऋकार ऋकारान्तश्रीलिङ्गे अकारान्तनपुसकलिङ्गे इकारान्तनपुसकलिङ्गे उकारान्तनपुसकलिङ्गि शब्दाः अधुना गच्छामः पुस्तकं प्रति किञ्चित् पठनं कृत्वा अनन्तरं कथां प्रति गच्छामः पश्यन्तु अत्र अस्ति वयम् एतावत्पर्यन्तं कृतवन्तः वयं गतसप्ताहे नदी नद्यां नद्योः नदीषु एतावत्पर्यन्तं कृतवन्तः अधुना उकारान्त श्रीलिङ्गशब्दः राधा भगिनी भवती आरम्भं करोति वा उकारान्त स्त्रीलिङ्गशब्दाः रज्जु रज्जुः रज्ज्वां रज्ज्वोः रज्जुषु अत्र पश्यन्तु तत्र किं भवति रज्जु तत्र मूलतः शब्दे जकार जकार उकार तत्र जकारस्य डब्लिङ्ग् दृश्यते खलु रज्जु तत्रापि आघातरूपेण रेफ रज्जु रज्जुः अतः mm -hmm. रज्ज्वां रज्जुव रज्जुषु रज्जु इति mm -hmm. धेनुः एतस्य वदतु धेनुपि उकारिङ्गुः धेन्वां धुषु सत्यम् अग्रिमे पठतु उकारान्तस्त्रीलिङ्गशब्दाः वधुः वध्वां वध्वोः वधूष्मु चमुः चम्वां चम्वोः चमूष्ुके रुकारान्त अपि वदतु रुकारान्तस्त्रीलिङ्गशब्दाः माता मातरी मात्रोः मातृषु अकारान्तनपुंसकलिङ्ग अकारान्तनपुंसकलिङ्गशब्दाः क्षेत्रं क्षेत्रे क्षेत्रयोः क्षेत्रेषु अयनम् अयने अयनयोः अयनेषु स्यन्दनं स्यन्दनम् इत्युक्ते अयन इत्युक्ते किम् अयनम् इत्युक्ते तत् मार्गम् इति मार्ग इति पश्यतु भगिनी रामायणं रामायण राम अयनम् इमायणं रामायणं रामायण यत्र किं भवति राम तस्य अयनम् अनन्तरं तत् नकारस्य नत्वं भवति तत्तु न नकार से नतम होिन्न व्याकरणबिंदु परे ग लाभाय अस्कंत रातवचने राम निष्ठावाक्रम राण वधम तथा तत्व सी त हननं भवेत् एव न्यायप्रचुरः मार्गेण एव राम रामः रामः तत्र रामस्य अयनं न्यायमार्गेण न्यायमार्गेण एव सः गतः अतः रामायण अयन अधुना अस्य स्यन्दनम् इत्युक्ते भगिनी स्यन्दनं सोफा चेर् तत्र रथ रथ रथ रथ तथा श्वेतौ हयोर्युक्तौ महती स्यन्दने स्थितौ स्यन्दने स्थितौ माधवः पाण्डवौ तत् स्यन्दनम् इत्युक्ते रथं रथम् इति रथ इति पुलि स्यन्दनमिति न कुशलं हा न्दनं स्यन्दने स्यन्दनयोः स्यन्दनेषु शस्त्रं वदतु शस्त्रं शस्त्रे शस्त्रयोः शस्त्रेषु योग्यम् योग्यमस्ति उत्तममस्ति धन्यवादः भगिनि धन्यवादः अधुना अग्रिमे भारतमहोदय करोति वा इकारान्तनपुस्तकलिङ्गाः शब्दाः आं भगिनि इकारान्त ah. इकारान्त पुशङ्कलिङ्गशब्दाः वारि वारिणि hmm. वारिणोः वारिषु अक्षि hmm. अक्षीणि hmm. अक्ष्णोः अक्षिषु नेत्रं नयनं अक्षि ओके नेत्रम् अत्र पश्यतु षष्ठी सप्तमी अक्ष्णोः अक्ष्णोः परे परोक्ष अक्ष्णोः परे परोक्ष अत्र रामायणं महाभारतं तत्र ये तत्र कथाः सन्ति तत्र क्षम्यतां या या याः कथाः तत्र सन्ति तेषां विषये किमस्ति परे, परोक्ष परोक्ष भूत्कान् अस्माकम् अक्ष्णोः पुरतः एतत् सर्वं न घटितम् अक्ष्णोः परे अतः परोक्ष इति परोक्षभूत्कार हा तत्र भवन्तः सर्वे गीतापठनं तु कुर्वन्ति एव तत् उवाच सञ्जय उवाच उवाच इति परोक्षभुत्कालरूपं लिट् लकार इति लकार वदति चेत् लिट् लकार तत् उवाच जगाम दर्शयामास एतादृशानि रूपाणि तत्र भगवद्गीतायां सन्ति Mm -hmm. अक्ष्णोः परे परोक्षभूतकालवाचि रूपाणि इति अस्ति किन्तु नयनम् अक्षी अक्षि mm -hmm. नयनम् अधुना उकारान्तनपुषकलिङ्गकारान्तनपुषङ्कलिङ्गशब्दाः mm -hmm. मदु, मदुनी, मधुनोः मधुषु जान सप्तमी विभक्ति एकवचन मधुनि द्विवचन मधुनोः सरि मधुनोः बहुवचन मधुषु मधु इत्युक्ते हनु हनि हनि रानु एकवचन द्विवचन चानुनोः बहुवचन् चानुषु श्मश्रु श्मश्रु श्मश्रु सप्तमी विभक्ति एकवचन् श्मश्रूणि श्मश्रूणोः श्मश्रुषु श्मश्रुषु इत्युक्ते न न जानामि भगिनि अहम् अत्र दर्शयामि हा भवन्तः एव सर्वे वदन्तु किमस्ति श्मश्रू इत्युक्ते मुखमस्ति अस्तु तत् न करोमि तथैव किमर्थ beer mm -hmm. ah. good painting <laughs> mashroob ah mm -hmm. oh. mashroob okay. ajna ashro mash ashro ashro ni अश्रु इत्युक्ते धन्यवादः अधुना एतस्य आरम्भं कुर्मः अनन्तरं कथां प्रति गच्छामः अद्यदिने दीर्घा कथा वर्तते तत्र दशपर्यन्तम् प्रथमतः आरभ्य दशमः पर्यन्तं कुर्मः अम्बिकापतिमहोदय भवान् आरम्भं करोति आवरणे विद्यमानस्य ततः आवरणे विद्यमानशब्दस्य सप्तमी विभक्तिरूपेण रिक्तस्थानानि पूरयत ब्रह्म अ, स... सरोवरः ब्रह्मसरोवरः कुरुक्षेत्रं सप्तमीविभक्तिरूपं किं भवितुमर्हति सप्तमीविभक्ति कुरुक्षेत्र ब्रह्म ब्रह्म सरोवरे अस्ति न ब्रह्मसरोवर कुत्र अस्ति तस्य सप्तमी ब्राकेट् मध्ये तत्र आवरणे कुरुक्षेत्रमिति अस्ति वदामः वा ब्रह्मसरोवरः कुरुक्षेत्रे अस्ति उत्तमम् अग्रिमे नर्तकाः पञ्च मञ्चकः मञ्चे नर्तकः मञ्चे नृत्यन्ति um. hmm. um, गङ्गोत्री गङ्गोत्री mm -hmm. हिमारि हिमगिरिः हिमगिरिः mm. uh, गङ्गोत्री हिमगिर्योः हिमगिर्योः सन् अस्ति huh. अत्र हिमगिरिः गिरि गिरि इति पुल्लिङ्गे शब्दः खलु इकारान्त पुल्लिङ्गकारान्त पुल्लिङ्गे शब्दः तत्र मुनि अग्निः एव चलति अतः तद्भवति गङ्गोत्री हिमगिरौ हिमगिरौ अस्तिगिरौ अस्ति अग्रिमे नीतिकथाः नीतिकथाः पुराणानि पुराणाने अत्र पुराणानि इत्युक्ते नपुस्तकलिङ्गे बहुवचनान्तरूपं वनं वने वना पुराणादिषु सन्ति पुरा पुराणेषु इति भवति फलेषु वनेषु पुष्पेषु पुराणेषु सन्ति हंसाः तडाः सन्ति तडागकारा तडाग इत्युक्ते लेक् कथं भवति सन्ति तडागे सरोवर तडागः तडागे, तडागे, तडागे सन्ति तडागे तरन्ति तरन्ति अग्रिमे भगिनी बहु वचन् राट् तरन्ति तरन्ति हंसाः तडागे तरन्ति इदानी तडे तडेषु न पश्यन्तु अत्र स्थितिका कर्तृशब्दहंसाः तडागः अस्ति एकः एव तडागः तडागे हंसाः सन्ति बहवः हंसाः परन्तु तडागः एकः एकस्मिन् एव तडागे बहवः हंसाः सन्ति एकस्मिन् एव तडागे सरसि सरसि सरस् सरोवर सकारान्त अग्रिमे वयं पठामः हलन्तशब्दाः तत् सरस् इति सकारान्त शब्द तत् सरसि इति सप्तम् सरसि हंसाः तरन्ति तडागे हंसाः तरन्ति अस्तु अग्रिमे गच्छामः अश्वाः धावन्ति अश्वः कुत्र धावन्ति युद्धभूमिः युद्धभूमे अश्वः श्रीलिङ्गशब्दं भवति भूमिः कदा कथं भवति भूम्याम् इति भूमौ अपि योग्यं भूम्याम् अपि योग्यं युद्धभूमौ अश्वाः युद्धयुद्धभूमौ धावन्ति अश्वः युद्धभूमौ धावन्ति हा सम्यक् अग्रिमे संहाः गुहाः गुहः गुहः गुहा गुहां वसन्ति अत्र आकारान् तु इत्युक्ते माला वा अम्बा एव तद्भवति मालासु अत्र पश्यतु गुहाः इति अस्ति एका गुहा बहवः गुहाः तत्र गुहाः अतः गुहासु गुहेषु किंवाः गुहासु गुहासु वसन्ति वसन्तिः गुहासु वसन्ति वृक्ष ुर्वेद वृक्ष सोरि वृक्षायुरुवृक्षायुर्वेदः अग्निपुराणम् अस्ति अग्निपुराणम् अग्निपुराणे अग्निपुराणे अस्ति सम्यक् अग्निपुराणे अस्ति अग्रिमे कृषाः कृषकाः सोरि कृषकाः केदाराः केदाराः आकारान्तपुल्लिङ्गेदारः वाटर् बाडि इति केदारः केदाराः अकारान्तपुल्लिङ्गी बहुवचनान्तरूपम् एकः केदारः केदारेषु के उत्तमं कृषकाः केदारेषु बीजानि वपन्ति वपन्ति अन्तिमं फलानि फलानि फलं फलं फलं फलं, फलं, फलं, फलं फलानि फले निपतन् हा जलं शब्दस्य रूपं फलानि फले जले न्ति निपतन्ति फलानि जले निपतन्ति उत्तमं योग्यं धन्यवादः धन्यवादः महोदय पुनः गच्छामः अग्रे कथां प्रति अद्यदिनस्य कथा अस्ति किञ्चित् दीर्घः अस्ति कदा पश्यामः आरम्भं कुर्मः जीवनपथः अगस्ट् महोदय भवान् आरम्भं करोति वा जीवनपठः mm. एकदा क् कश, mm. कश्चन मनुष्यः mm. बहुभिः दुःखैः mm. पीडितः पी सन् ईश्वरसमीपं mm. गतवान् mm. दृष्टमात्रेः दृष्टमात्रे एवम् ईश्वरे सः उच्चैः आक्रोशन् कर्तुम् आरब्धवान् भोः ईश्वर भवान् सदा कथयति यत् अहं जगतः जीवना रक्षण कौमे दुखा दूरीक तेज्य सुख प्रद प्रद ये मैं ये चैंती त अत्र किं भवति अत्र पश्यन्तु ये मां ध्यायन्ति ये च मां न ध्यायन्ति तेषां सर्वेषामपि योगक्षेमं वहाम्यहम् इति गीतावचनम् अस्ति हा भगवतः किम् अभवत् भगवतः तत्र स्वयम् नारायण भगवता नारायण एव उक्तमस्ति योगक्षेमं वहाम्यहम् अधुना सह मनुष्यः दुःखपीडितः मनुष्यः ईश्वरम् समीपे गत्वा वदति आक्रोशम् करोति उच्चैः आक्रोशम् कर्तुम् आरब्धवान् उच्चैः स्क्रीमिङ्ग् इति आक्रोशम् करोति भो ईश्वर भवान् सदा कथयति यत् अहम् जगतः सर्वेषाम् जीवानाम् रक्षणम् करोति इत्युक्ते भवानेव वदति भवतः एव वचनम् अहं सर्वेषां दु जीवानां दुःखानां हरणं करोमि दूरीकरोमि एवं सर्वं परन्तु अत्र मम स्थिति का भवान् तु वदति ये मां ध्यायन्ति वा न ध्यायन्ति अहं सर्वेषां योगक्षेमं वहामि इति परन्तु अधुना मम स्थितिः का इति सः दुःखपीडितः मनुष्य आक्रोशं करोति एतावत्तरम् अधुना पश्याम मनुष्यस्य स्थितिः एतस्य मनुष्यस्य स्थितिः का इति अग्रिमे परिचयते हा अस्तु धन्यवादः आगच्छतु महोदय धन्यवादः राधा भगिनी अग्रिमे पठति वा परन्तु मम तत्र विश्वासः एवम् अपगत अस्ति यतः अहं तु सदा भवतः प्राणिधानं पूजादिकं च करोमि नित्यं भवन्तं ध्यायामि सर्वेषु कार्यजा कार्यजातेषु भवन्तमेव महत् महत्म, महत्मत्मत्वेन प्रकल्पयामि सर्वेषां कार्याणाम् उत्तरदायित्वं भवतः एव इति दृढतया मन्ये तथापि अहं नितान्तबहुभिः दुःखै दुःखैः पीडितः भवामि अतः मन्ये अहं यत् भवतः योगुद्धं नास्ति किम् अभवत् okay. समस्या अस्ति वा न जानामि अहं किं किमपि वदति का वदति अम्बिकापति महोदय वदति वा ध्वनि न जा न शृणोमि न श्रूयते वा परन्तु तत् अहं तु श्रोतुं शक्ष्यामि तत् एकवारं अधुना तु स्पष्टमस्ति अतः मन्ये अहं यत् भवतः योगक्षेम वह योगक्षेमवहनादिकानि सर्वाणि अपि वचनानि वृथा एव उत्तरदायित्व hmm. hmm. hmm. अतः मया निश्चिन्तम् यत् अद्य प्रभूति अहं भवतः सेवां न करिष्यामि एषोऽहं गच्छामि इति अधुना कः भावः अस्ति अत्र वाक्यशः अनन्तरं पश्यामः परन्तु मनुष्यस्य भावः कः एतस्या मनुष्यस्य भाव वेरि अप्सेट् अप्सेट् अस्ति मनुष्य अतः पीडितस्ति मनुष्यः ते uh, वदति अहं तत्र विश्वासं करोमि सदा तस्य पूजां hmm. करोमि ध्यायं करोमि सर्वेषु कार्येषु महत्त्वेन तस्य आदरं करोमि hmm. परन्तु अहं दुःखि दुःखी अस्मि hmm. hmm. तत्कारणं hmm. तस्य योगक्षेमं तत् त्वं वदा वदति योगक्षेमं करोति इति परन्तु मम तस्य विश्वासं विश्वासः नास्ति अहं mm. उत्तरदायित्वं धारति इति mm. सर्वं मिथ्या इति मम मन्ये इति तत्कारणम् अहं तस्य पूजां सेवां न करोमि करिष्य इतोपि इतोपि कर, न करिष्यामि इति मनुष्यः वदति अहं गच्छामि इति वदति सत्यं योग्यम् हा अधुना सः मनुष्यः दुःखैः पीडितः अस्ति भगवता वचन पश्यतु तत्र अस्ति खलु अनन्याश्चिन्तयन्तो मा ये जनाः पर्युपासते तेषाम् नित्याभियुक्तानां योगक्षेमं महाम्यं ये जना नित्ययुक्ताः तेषां योगक्षेमं महाम्यम् अतः मनुष्यस्य चिन्तनं किम् अहम निुक्त अस्व स्थल अथ लिखित सर्व कार्युव महत्म सुप्रीम प्रकरदायमत दृढ़तया अं मम मनसी अहंकार नीत कार्य दायित्व सब मे चिंतनमस्ती चिन्तने अपि किमपि तत्र विकल्पः न दृश्यते तत् चिं, मम चिन्तने विकल्पः मम आचारे हा आचार अपि तत्र किमपि दोषः वा किमपि तत्र सन्देहः इति नास्ति तत् किमर्थम् एतत् सर्वम् अहं दुःखपीडितः तत् मम जीवने बहवः समस्याः सन्ति किमर्थम् एतत् भवान् तु वदति योगक्षेमं वहाम्यहं परन्तु योगक्षेम अत्रापि योगक्षेम योगक्षेम इत्युक्ते किं कोऽपि वक्तुम् इच्छति वा ददा भगिनी जानाति चेत् अपि वक्तुं शक्नोति योगक्षेम इत्युक्ते अन्य कोऽपि इतोपि इतोपि एक वदतुम् इत्युक्ते तत्र योगः योगः अप्राप्य अप्राप्य यः अप्राप्य तस्य प्राप्ति तत् भवति योगः परन्तु प्राप्तिः भवति प्रा प्राप्तिः भूत्वा तस्य लाभः भवति वा अधुना चिन्तयन्तु सर्वे हा अत्र मम मम सखी वा मम माता वा मम पुत्री वा मम कृते तत्र भोजनं सज्जीकरोति <laughs> तत्र माता अद्यदिने भवती किमपि न करोतु पाकशालां प्रवेशमेव न करोतु अहं <laughs> सर्वं तथा अहं सर्वं करोमि हा इति मम पुत्री वदति अधुना तत्र सुग्रास् अन्न सुग्रास तत्र पक्वान्नानि सन्ति मिष्टान्नं सन्ति मिष्टान्नाः सन्ति एवं मम पुरतः तत्र स्थाली अस्ति mm -hmm. योग अप्राप्य योगः प्राप्तिः परन्तु यदा तस्मिन् एव समये अतिथयः आगच्छन् आगच्छन्ति mm -hmm. वा मम तत्र किमपि कार्यं कार्यालयतः दूरध्वनिं स्वीकृतवती अनन्तरं तत् किमपि कार्यमस्ति तत् करणीयमेव अस्ति इत्युक्ते तत्र लाभः न भवति प्राप्तिः तु अभवत् परन्तु लाभः न अभवत् hmm. योगः क्षेमः hmm. जायिन्ट् योगक्षेमः hmm. अत्र एल् uh, ऐ सि इति जीवनविमा ते hmm. योगक्षेमं वहाम्यहम् इति वदति hmm. खलु अस्तु एतत् सर्वं तत् मनुष्यः दुःखैः व्याकुलः सः एतत् सर्वं वदति अस्तु अधुना किञ्चित् अग्रे सरेमः तत्र भावः न तथा परन्तु प्राप्ति Yes, yes, yes. We don't deserve it because of our luck or because of our good deeds or whatever, because of our parents' blessings. We get a number of things. Correct. Even if we don't. But after getting also, Tasyya labha bhavet. Ah. Okay. Labha tu bhavet even. Mm-hmm. Uh-huh. But mm -hmm. yoga ha so tu asti, paranto labha na asti, kreva na asti, paranto oh. vayo ho yoga krema vahami aham. Mm -hmm. Yoga ha api bhavati. इति भगवान् वदतु हा अनन्याश्च परन्तु तत्र कण्डिशन् अस्ति वाट् इस् द कण्डिशन् अनन्याश्चिन्तयन्तो मा ये जनाः परिहोपासते तेषां नित्याभियुक्तानां नित्याभियुक्तानां कम्प्लीट्लि अटेच् कम्प्लीट्लि सरेण्डर् तेषामेव योगक्षेमं वः अत्र कोऽपि मनुष्यः तत्र अस्ति कः अपि वदति हा मम योगक्षेमं वहतु तत् न mm. अस्तु एवमस्ति अस्तु भगिनी ईश्वरः तु एतत् श्रुत्वा मन्दं मन्दं स्मित्वा मधुरस्वरे स्वरेण तं कथितवान् भोः बन्धो धीरः भवतु समाश्वसितु वा एवम् इति एवम् अकुलो मा भवतु उपविशतु अत्र इति ततः सः चित्रगुप्तम् आहूय तम् आदिष्टवान् Mm -hmm. चित्रगुप्त भवतः पुस्तकात् अस्य मनुष्यस्य जीवनपथ mm -hmm. ah. प्रदर्शकं चित्रम् आनयतु तावत् इति mm -hmm. एवम् इति उक्त्वा चित्रगुप्तः गत्वा तत् पुस्तकम् आनीतवान् mm -hmm. अग्रिमे अपि पठतु परन्तु एतावत् परं किम् अभवत् पश्यन्तु ईश्वरः मन्दम मन्दं, मन्दं हसति हा मधुरस्वरेण वदति भो बन्धो भो सम्बोधनम् धीरः भवतु समाश्वसितु एवम् अकुलो मा भवतु अकुलो व्याकुलः तत्र उपविशतु अत्र उपविशतु अनन्तरं शित, आम् चित्रगुप्तम् आहूय किं नाम चित्रगुप्त भगिनि द बुक् कीपर् एव <laughs> अस्माकं पुण्यकर्माणां कर्मणां पुण्यकर्मणः पापकर्मणः तत्र सम्यक् तत्र, तत्र, तत्र लिखितं वर्तते इति जनाः वदन्ति इति तज्ञाः वदन्ति अस्माकं श्रद्धा चित्रगुप्तं बुक् कीपर् भवती उक्तवती चित्रगुप्तं किं किम् आदिष्टवान् चित्रगुप्त uh, eh, uh, mm, अस्य मनुष्यस्य जीवनपथस्य hmm. लेख, लेखनं लिखनम् आम् तत्र इत्युक्ते प्रदर्शकं चित्रम् इत्युक्ते अकौण्ट् इत्युक्ते पुण्यकर्माणि वा तत्र पापकार्याणि वा एवं सर्वं तस्य लिखित् लिखितस्वरूपं हा लिखितस्वरूपम् अत्र दर्शयतु इति सः वदति चित्रगुप्तम् ईश्वरः चित्रगुप्तं वदति अनन्तरं चित्रगुप्त अपि सः पुस्तकम् आनीतवान् अधुना किम् अभवत् अग्रिमे एव पठतु अनन्तरम् अन्यथा ईश्वरः तत् ईश्वरः तत् तत पुस्तकम् उद्घाट्य तत्र एकं hmm. चित्रं मनुष्याय दर्श दर्शयित्वा कथितवान् hmm. यद्यापि मयि भवतः विश्वासः नास्ति तथापि पश्यतु एतत् अस्मिन् यत्र यत्र तव पदचिखानि hmm. पदचिह्नानि पु तव पदचिह्नानि सन्ति तत्र तत्र अन्यानि अपि पदचिह्नानि दृश्यते तानि तानि मम अनेन एव निश् निश्रीयते निश्चीयते निश्चीयते यत् अहं तदैव तव साहाय्यं करोमि hmm. सहगामि भूव सहगामि भूय च दुःखेभ्यः भवतः रक्षणम् अपि करोमि hmm. भवतः अपि वहामि इति hmm. वदतु किम् उक्तवान् ईश्वरः अहम् ईश्वरः उक्तवान् तत् पुस्तकं दर्शयित्वा hmm. यद्यापि मयि भवतः विश्वासः नास्ति तदापि पश्यत। पश्यतु तत् चित्रं पश्यतु इति दर्शयति भगवान् mm -hmm. दर्शयति अस्मिन् यत्र यत्र तव पदचिह्नानि सन्ति तत्र अन्यानि अपि हा mm -hmm. एष मनुष, मनुष्य मनुष्यस्य पदचिह्न अपि अन्यकानि अपि दर्शयति इत्युक्ते तत्र चित्राङ्कितस्वरूपमस्ति इत्युक्ते किं वदामः तत्र केवलम् अकाउंट इति नास्ति तत्र डैग्रामेटिक् रिप्रसेण्टेशन् वर्तते हा पदचिह्न हा इत्युक्ते यत् येन मार्गेण येन मार्गेण सः मनुष्य गतवान् आसीत् चित्राङ्कितदृष्ट्या तत्र स्वरूपं तत्र वर्तते चित्राङ्कितस्वरूपं तत्र वर्तते तत्र किं दृश्यते मनुष्यस्य पदचिह्नानि मनुष्यस्य पदचिह्नानि सन्ति तथैव अन्यानि अपि पदचिह्नानि अन्यानि पदचिह्नानि कस्य पदचिह्नानि तत् ईश्वरस्य पदचिह्नानि ईश्वरः वदति भवतः पदचिह्नानि मम पदचिह्नानि इत्युक्ते किम् सदैव भवतः साह्यार्थं सज्जः अस्मि आसीत् अस्मि mm. सह सहगामि भूय च दुःखेभ्यः भवतः रक्षणम् अपि करोमि इत्युक्ते दुःखे वा सुखे वा दुःखे अहं भवतः सहगामि ऐ शेर् युयर् सोरो ऐ शेर् यु ए इति सः गामी भूय दुःखेभ्यः भवतः दुःखेभ्यः पञ्चमी कस्मात् दुःखेभ्यः रक्षणम् अपि करोमि अधुना रक्षणमपि करोमि दुःखात् रक्षणं करोमि योगक्षेमम् अपि वहामि पश्यन्तु किमर्थं तत्र बैग्रामेटिक् रिप्रेण्टेशन् किम् अस्ति तत्र मनुष्यस्य पदचिह्नानि तथैव ईश्वरस्य पदचिह्नामि पदचिह्नामि द्वयं पदचिह्नानि द्वयं मार्गे इत्युक्ते सदा सदा सर्वदा अहं भवतः साहाय्यकारी एव हा अस्तु भगिनि हा इति हा इत्युक्ते पश्यतु सः किं बदती द्वितीये परिच्छेदे सर्वेषा कार्याणाम् उत्तरदायित्वं भवतः एव इति दृढतया अहं मन्ये इत्युक्ते वाट् द कण्डिशन् अनन्य अनियािंत म ये जरूपते सह तशन सह अहंकारी मनुष्य न आसत सह न अहंकारी ईश्वरभक् आसी चरनागत अन ईश्वर से चिंतन कौतीम वहाम सहगामी भूय च दुखेभ्यवत रक्षण कौमें वह तो योगक्षेम अब एतत् सर्वमस्ति किमर्थं चिन्ता किमर्थं तद् दुःखैः पीडा दुःखैः तत्र आक्रोशम् एवं सर्वं किमर्थं पश्यामः अग्रे अस्तु धन्यवादः भगिनी विना भगिनी अस्तु धन्यवादः धन्यवादः भारतमहोदय अग्रिमे पठति वा मनुष्यः क्रोधाविष्टः एव तत् आरभ्य मनुष्यः क्रोधाविष्टः एव आसीत् सः ईश्वरहस्तात् क्रोधाविष्टः मनुष्य सः अत्र अत्र वयं समापितः सः ईश्वरहस्तात् देट् इस् फ्रोम् हिस् हेण्ड् ईश्वरहस्तात् पञ्चमी चित्रम् mm. आकृष्य mm. सम्यक् द्रष्टुम् आरब्धवान् mm. सहसा तस्य दृष्टिः चित्रस्य एकस्मिन् भागे पतिता mm. सह तु तस्य आपत्कालस्य विभागः आसीत् mm. तत्र च पदचिन्हानाम एका एव परिपाटी आसीत् एतद् दृष्ट्वा सः चित्रं स्वीकृत्य ईश्वरोपरिवान् पश्यतु अत्र यत्र मम अपतिकालः अस्ति तत्र mm -hmm. एव भवान् मां विहाय अन्यत्र गतवान् दृश्यते अतः एव अत्र पदचिह्नाम् एका एव पङ्क्तिः लक्ष्यते mm -hmm. अतः बहु भवान् असत्यमेव वदति इति पश्यन्तु किम् अभवत् अत्र किमभवत् भारतमहोदय ईश्वर ईश्वर अपत्तिकालस्य सदैव रक्ष, रक्ष, रक्षतु रक्ष, रक्षामि हा पश्यन्तु अत्र किम् अभवत् सः मनुष्यः दुःखैः पीडितः तत्र यदा ईश्वरः वदति अहं सर्वदा भवतः समीपे एव अस्मि एवं सर्वं तदा सः चित्रस्य यथा अहम् उक्तवती तत् डैग्रामेटिक् रिप्रेण्टेशन् इति भवति तत्र चित्रगुप्तस्य समीपे या मुक्तिका तत्र अधुना चित्रस्य एकस्मिन् भागे तत्र सः पश्यति मनुष्यः पश्यति आपत्कालस्य विभागः इत्युक्ते सङ्कट सङ्कटकाल इत्युक्ते आपदा विपत्ति विपत्तिकाले विपत्तिकाले तु पदचिह्नद्वयम् एव दृश्यते हा इति स्थिति का द्वयोः पदचिह्नयोः एवं दर्शनं तत्र दृश्यते एका एव परिपाटी आसीत् एका एव परिपाटी इत्युक्ते ए एका एव पदचिह्नानाम् एका परिपाटी इत्युक्ते मार्ग इत्युक्ते एका एव पदचिह्नानां परिपाटी इत्युक्ते तत्र ईश्वरस्य पदचिह्नानां दर्शनं न भवति हा एका एव परिपाटी अधुना सः मनुष्य पश्यतु चित्रं स्वीकृत्य ईश्वरोपरि प्रक्षेपन् ऐट् इस्थोयिङ्ग् तु क्षे क्षेपणं सः वदति पश्यतु mm. पश्यतु अत्र मम आपत्तिकालः तत्र मम आपत्तिकाले mm. अहम् एव गच्छामि मम एव पदचिन्नानां दर्शनं तत्र भवति भवान् mm. तु न आसीत् मम भवान् अन्यत्र गतवान् इति दृश्यते अतः अहं दुःखी एका एव पङ्क्ति इत्युक्ते औली भवान् कुत्रचित् गतवान् आसीत् तत्र मम समीपे न आसीदेव आपतकाले <laughs> विपदाम् अहम् एव तत् भवान् तु न आसीदेव इति mm. सः उक्तवान् तत्र डैग्रामेटिक् रिप्रेजेण्टेशन् इत्युक्ते तत्र डैरेक्ट् इति अस्ति खलु पूरतः बहु एव तत्र दृश्यन्ति ते इति दृश्यन्ते अस्तु अधुना अग्रिमे किं हा धन्यवादः भारत् महोदय अधुना धन्यवादः अम्बिकापतिमहोदय भवान् अग्रे पठति वा ईश्वरः हसित्वा तत्र आरभ्य उच्चैः हसित्वा कथितवान् भोः किं भवता चिन्तितं यत् अत्र किमर्थम् एका एव तदा छिन्ना छिन्नपङ्क्तिः पदचिह्नपङ्क्तिः अस्ति इति पदचिह्नपङ्क्तिः अस्ति इति हा अत्र ईश्वरः उच्चैः अचित्वा तत्र मनुष्येण प्रश्नः कृतः अधुना ईश्वरः हसति किं वदति किमर्थम् एतत् चिन्तनम् एका एव पदचिह्नपङ्क्तिः दृश्यते अतः इति पृच्छ पृच्छतु पृच्छति सः अधुना मनुष्यः किं वदति पठतु महोदय मनुष्यः एकः एव पदचिह्नम् अस् पदचिह्नं पङ्क्तिः अस्ति एकः एव मनुष्यः तारस्वरेण तारस्वरेण अवदत् किम् अत्र चिन्तयि चिन्तयितं hmm. स्पष्टमेव एतत यत् भवान् आपत्तिका आपत्काले एव hmm. माम् एवत् मां विस्मृतवान् इति ah. आपत्काले विस्मृतवान माम् विस्मृतवान् भवान् माम् त्यक्तवान् माम् त्यक्त्वा अन्यत्र कुत्रचित् गतवान् मम समीपे न आसीत् एव मां विस्मृतवान् इति मनुष्य वदति अधुना अग्रिमे पठतु ईश्वरः मञ्जुल मञ्जु मञ्जुलस्वरेण तं सान्तयन् खादितवान् भोः नैवम् इदं भवतः चिन्तनम् अयोग्यम् अत्र एका एव पदचिह्नापङ्कैः दृश्यते यत् तस्य कार कारणं तु इदं यदा भवान् बहुभिः दुःखैः पीडितः सन् दुरवस्थात् अनुभूतवान् yeah. तदा अपि अहं भवतः पार्श्वे एव आसम् किन्तु भवान् हि दुःख दुःखपीडितः सन् चलितुमपि समर्थः न आसीत् अतः अहं भवन्तं मम स्कन्दयोः आरोप्य चलितवान् अनेन एव कारणेन अस्मिन् चित्रे आपत्कालाद्भागे एका एव पदछिह्नापङ्क्तिः दृश्यते अवबुभम् वक्तुमिच्छति इति किम् अभवत् अत्र बहु दीर्घवाक्यानि हा अस्तु चिन्ता मास्तु पश्यन्तु मनुष्यः वदति आपतकाले मम एव पदचिह्नानि तत्र दृश्यन्ते मम एव पदचिह्नानि तत्र दृश्यन्ति अधुना भवान् तत्र न आसीत् एव इति मनुष्यस्य चिन्तनम् ईश्वरः मञ्जूलस्वरेण तम् सान्त्वयन् पश्यतु मञ्जूलस्व सुजिंहति सान्त्वयम् न एवम् नैवम् न, न, न तथा भवतः चिन्तनम् अयोग्यम् यत् भवान् चिन्तयति तत् योग्यम् नास्ति अत्र एका एव पदचिह्नपङ्क्ति दृश्यते किमर्थम् एका एव पदचिह्नपङ्क्ति भवतः एव पदचिह्नपङ्क्तिः किमर्थम् भवान् दुःखैः पीडितः तदा अहं भवतः पार्श्वे इत्युक्ते पार्श्वे आन् द बेक् सैड् एव आसम् किमर्थम् भवान् दुःखैः पीडित चलितुम् अपि असमर्थः भवान चलितुम् अपि समर्थः न आसीत् तदा अहं भवन्तं मम स्कन्धयोः आरोप्य चालितवान् स्कन्धयोः आरोप्य ऐ वस् टेकिङ्ग् यू अलाङ्ग् वित् मी नोट् ओन्ली देट् ऐ वस् ऐ वस् केरिङ्ग् यू एण्ड् देट्स् वै भवतः एव पदचिह्नानि मम पदचिह्नानि तत्र भवतः पदचिह्नानि न मम पदचिह्नानि पदचिह्नानाम् एका एव पङ्क्ति तत्र दृश्यते परन्तु सा पङ्क्ति न तव पङ्क्ति न भवतः पङ्क्ति सा पङ्क्ति मम पङ्क्ति किमर्थं भवान् तस्मिन् समवे भवान भव भवतः कृते चलनम् अपि न शक्यते अतः अहं मम स्कन्धौ स्कन्धयोः आरोप्य भवतम् नीतवान् आसीत् चालितवान् स्कन्धयोः आरोप्य चालितवान् अनेन कारणेन चित्रे आपत्तिकालविभागे एका एव पङ्क्ति एका एव पदचिह्न पङ्क्ति परन्तु सा पदचिह्नपङ्क्ति ईश्वरस्य पदचिह्नपङ्क्ति न तु मनुष्यस्य किमर्थम् ईश्वरस्य पदचन्ति पद पदचिह्नानि तदा मनुष्यः दुःखैः पीडितः सन् तस्य कृते मार्गक्रमणा न शक्यते अतः भगवान् तं स्कन्धयोः आरोप्य चालितवान् आसीत् स्पष्टं वा पस्तंग मञ्जुल मञ्जुलस्वर अर्थं किं मञ्जुलस्वर मेलिडियस् वोय्स् मधुरस्वर अत्र कथं तत्र विषमता दृष्टते मनुष्यः तारस्वरेण अवदत् परन्तु ईश्वरः तु कृपालुः दयालुः अतः मञ्जूलस्वरेण तं सान्त्वया करुणासहित करुणा अन्तिममपि पठतु एतत् श्रुत्वा एतत् श्रुत्वा दृष्टं लज्जितः मनुष्यः पुनः पुनः ईश्वरं क्षं शम, क्षमां प्रार्थितवान् व्रतादोषारोपणार्थम् आत्मानं निन्दं स्वस्थां प्राप् प्राप्यगतः प्रत्यागतः प्रत्यागतः प्रत्या उपसर्गता मधुष्वलज्जितः जातः ईश्वरात् क्षमामपि सः क्षमाम् अहं क्षमां याचे क्षमां याचे पुनः पुनः उक्तवान् वृथा दोषरोपणम् अहं कृतवान् आत्मानं निन्दन् स्वनिन्दा स्वनिन्दया एव सः प्रत्यागतवान् इत्युक्ते तत्र सः लज्जितः अभवत् तत्र ईश्वरेण हाय्येन एव सः मार्गक्रमणाम् कृतवान् तदा अपि सः वृथा दोषम् दोषाणाम् आरोपणम् कृतवान् परन्तु न तथा भगवतः वचनानि मिथ्यानि न सन्ति एव योगक्षेमं योगक्षेमम् वहाम्यहम् केषाम् तत् कण्डिशन् कण्डिशन् इस् अहम् योगक्षेमम् वहामि इति सः वदति तत् सत्यमेव न मिथ्या वचनानि न मिथ्यानि वचनानि वचनं वच्छना मिथ्यमिति नास्ति इति सः अवगतवान् अस्तु पुनः mm -hmm. एकमेकं एकम कथायाः विषये निबदनार्थं प्रार्थितुं भगवान् निश्चयेन सहायं करोति आर्तया यदा वयम् अत्र इतोपि एकमस्ति यदा वयम् अहङ्काररहितः वृथा अभिमानरहितः तदा यत्किमपि वयं कार्यं करोमि तस्य फले फल फलस्य अपेक्षा मनसि नास्ति चेत् भगवतः साय्येन सुखम् एव अनुभवामः इति अस्ति योगक्षेमं वहामियम् इति सः वदति तत् सत्यं योग्यं अधुना अन्ये वीणाभगिनी राधाभगिनी भारतमहोदय ओगोष्ठमहोदय वदति वा कथाया विषये ईश्वरः सदेव मम समीपे अस्ति hmm. मम काले hmm. अकेला नास्ति ah. सत्यं सत्यं साय्यकारी ईश्वरः सदा सायकारी निष्ठया वयं यदि कार्यं कुर्मः चेत् ईश्वर सदा साय्यका भोग्यं बहु साम्य राधा भगिनी विना भगिनी वस्तु महोदय अ वेरि फेमस् पोस्टर् अबौट् दिस् स्टोल् अत्र अहं पश्यामि ब्यूटिफुल् स्टोरि युनो दुःखसमये अहम् अन्य किमपि दोषं करणीयम् इति चिन्तयामि तत्कारणम् अहं युनो वित् अदर्स् बट् भगवान् सदैव मम सङ्घे अस्ति काले परन्तु सुखकाले अहं न चिन्तयामि दुःखकाले अहं चिन्तयति अहम् एकाकी अस्मि इति मनसि आगच्छति आम् पश्यन्तु अत्र बहुत्र तत्र Uh, चित्रपटे अपि तद् वयं चलचित्रे अपि वयं पश्यामः हे भगवान् तु कः हे इति वदतु न अहं वदामि तत्र नास्ति भगवान् सदैव अहं समीपम् अस्ति परन्तु अहं न जानामि struggling we think we are alone yeah bahut sam vina bagini madati ba ha bachne we think we are in big trouble uh, mm -hmm. and ask for ask god for smaller things bagane but god has bigger things for us which we don't realize and um, we only ask for petty things aa ma satyam satyam big picture भगवतः मनसि यत् अस्ति तत् अस्माकं सम्पूर्णजीवनस्य चित्रं यत् अस्ति तत् भगवतः मनसि अस्ति परन्तु वयम् एतत् अभवत् तत् न भवेत् चेत् वरं किमर्थं मया एव तत् एवं इति अस्माकं चिन्तनं परन्तु तथा वस्तुतः तथा नास्ति इति सम्यक् उत्तमम् अस्ति अवस्तु मध्ये भवान् um uh i think there is a desire to see the, the blessings in the mm. pleasant things mm. but it's and it's more difficult to to see the blessing when this is a a difficult situation mm. but when we pass on we mm. see that uh, we will learn um mm. we can see the the blessing true satyam satyam vaiam anubhavam ah anubhavam kada kada vaiam anubhavam yada asmakam chintanam tadrusham asti ched eva ah tat chintanasy krute chintanasy samyak chintanasy ka avashyakta iti tatra varnaitam drushyate ah astu ah समयः अधुना जातः अतितः समयः अस्तु वयम् अत्र स्थगामः अम्बिकापतिमहोदय भवान् शान्तिमन्त्रेण समापयति वा ओम् पूर्णमिदं पूर्णा पूर्णमुदच्छदे पूर्णस्य पूर्णमाधाय पूर्णमेव अवशिष्यदे ॐ शान्ति शान्तिशान्तिः हरिः ओम् सत्सद् श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः